अथ नवग्रह पूजा सूर्य आवाहनम सूर्य आवाहन आसूमंत्रि देवता सबता दधिदेवता सहित सूर्य ग्रह आवाहने आवाह विनियो जपाकुसुमशङ्कासम् द्विभुजम् पद्महस्तकम् सिन्धूराम्बरबाल्यम् च रक्तगन्धानुलेपनम् ओ असत्येन रजसा वर्तमानो निवेशयन्नमृतम् मत्यम् च निरन्यजेन स वितारथेन देवो जाति विपश्यन् ुभस्सुभः सूर्यग्रह इहागच्चगच्च सूर्यग्रहम् रक्तवन्दम् रक्तगन्धम् रक्तपुष्पम् रक्तबाल्याम्बरदम् रक्तच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेघुम् प्रदक्षिणीकुर्वाणम् प्राङ्मुखम् पद्मासनस्थम् द्विपुषम् सप्त अश्वम् सप्तरज्ज्वम् कलिङ्गदेशाधिपम् काश्यपगोत्रम् प्रभवसंवत्सरमाघशुक्लसप्तम्या विशाखानक्षत्रे जातम् सिंहराश्यधिपतिम् भानुवासरप्रयुक्तम् किरीटिलम् सुखासीदम् पत्नीपुत्रपरिवारसमेतम् गृहमण्डले प्रविष्टम् अस्मिन्नधिकरणे मध्ये वर्तुलागारमण्डले गोधूमधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् सूर्यग्रहम् ध्यायामि आवाहयामि होतारं धतम वृणीमहोतरम विश्वधस अस्क्रत ओं भूर्भुवस्सु सूर्य ग्रह ग्रह अधिदेव सूर्य अग्नेगच्छ सूर्यग्रह अतिदेवतायुधम सवाहनम शक्ति पत्नीपुत्रपरिवारत सूर्यग्रहस्य दक्षिणतः अग्निम् ध्यायामि आवाहयामि ॐ येषामीशे पशुपतिः पशूनाञ्चतुष्पदामुत चद्भिपदा निष्क्रीतोजम् जज्ञिजम् भागमेतु राजस्फोटाजमानस्य सन्तो ॐ भूर्भुवः सूर्यग्रहप्रत्यधिदेवरुद्र इह आगच्छ सूर्यग्रहप्रत्यधिदेवताम् साङ्गम् सायुधम् सवाहनम् सा शक्तिपत्नीपुत्रपरिवारसमेतम् सूर्यग्रहस्य उत्तरतः रुद्रम् ध्यायामि आवाहयामि अथ चन्द्र आवाहनम् आप्यायस्व इत्यस्य मन्त्रस्य गौतमर्षिः गायत्रीछन्दः सोमो देवता अधिदेवताप्रत्यधिदेवता सहितचन्द्रग्रहावाहने विनियोगः सोमम् शुक्लाम्बरधरम् मुक्ताभरणभूषितम् श्वेतकन्धानुलिप्तम् च केयूरमकुटोज्ज्वलम् ओ आप्यायस्व समेतु ते विश्वतः सोमवृष्टिजम् भवाजस्य सङ्गते ओम् भूर्भुवः सुवः चन्द्रग्रह इहागच्छ आगच्छ चन्द्रग्रहम् श्वेतवर्णम् श्वेतगन्धम् श्वेतपुष्पम् श्वेतमाल्याम्बरधरम् श्वेतच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेरुम् प्रदक्षिणीकुर्वाणम् दशाश्वरथवाहनम् प्रत्यङ्मुखम् द्विभुजम् दण्डधरम् यामुलदेशाधिपतिम् आत्रेयगोत्रम् नन्दनसंवत्सरकार्तिकशुद्धचतुर्दश्या कृत्तिकानक्षत्रे जातम् कर्कटकराश्यधिपतिम् इन्दुवासरप्रयुक्तम् सुखासीनं। सुखासीनम् पत्नीपुत्रपरिवारसमेतम् ग्रहमण्डले प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य आग्नेय दिग्भागे समचतुरश्रमण्डले तण्डुलधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् चन्द्रग्रहम् ध्यायामि आवाहयामि ओ अप्सु मे सोम अभ्रवेदन्तर्विश्वानिभेदज अग्निच विश्वसंभुव पाप्च विश्वेशजी ओं भूर्भुवस्ुब चंद्रग्रहा सायुरा सवाहना शक्ति पत्नीपुत्रपरिवारता चंद्रग्रह से दक्षिणत अवहयामी आवाहयामी लीलानि नक्षत्येकपते द्विपति स चतुष्पदी अष्टपदी नवपति बभूपुषि सहस्राक्षरपरमे व्योमल् ओम् भूर्भुवस्तु वः चन्द्रग्रहप्रत्यभिदेवताम् साङ्गाम् सायुधाम् सवाहनाम् शक्तिपत्नीपुत्रपरिवारसमेताम् चन्द्रग्रहस्य उत्तरतः गौरीम् ध्यायामि आवाहयामि अथ अङ्गारक आवाहनम् अग्निर्मूर्धा इत्यस्य मन्त्रस्य विरूपर्जिः गायत्रीचन्दः अङ्गारकग्रहो देवता अदिदेवता प्रत्यदिदेवता अधिदेवता प्रत्यदिदेवतासहित अङ्गारकग्रहावाहने विनियोगः रक्तबाल्याम् परधरम् कदापद्वं चतुर्भुजम् शक्तिरूपम् कदापद्मम् धारयन्तम् कराम्बुजैः ओ अग्निर्मूर्धादिवक्तकृत्पतिपृथिव्याजम् ्रेतागुम् सृजिन्वती ओम् भूर्भुवस्सु वः अङ्गारकग्रहैः आगच्छागच्च अङ्गारकग्रहम् रक्तवर्णम् रक्तगन्धम् रक्तपुष्पम् रक्तवाल्याम्बरधरम् रक्तश्छत्रध्वज रसपदागादिशोभितम् दिव्यरथसमारूढम् मेरुम् व्रदक्षिणीकुर्बाणम् मेषवाहनम् दक्षिणाभिमुखम् चतुर्भुजम् गदाशूलशक्तिधरम् अवन्तीदेशाधिपतिम् भालद्वाजगोत्रम् अक्षयसंवत्सरभाद्रपदशुक्लद्वितीया पूर्वफल्गुडीनक्षत्रे जातम् मेषवृश्चिकराश्यधिपतिम् भौमवादरप्रयुक्तम् किरीटिनम् सुखासीनम् पत्नीपुत्रपरिवारसमेतम् ग्रहमण्डले प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य दक्षिणदिग्भागे त्रिकोणाकारमण्डले आधकधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् अङ्गारकग्रहम् ध्यायामि आवाहयामि ॐ स्यो न पृथिवीभवनक्षरनिवेदने यच्च नः सर्वसप्रथाः ॐ भोर्भुवस्तु महा अङ्गारकग्रहाधिदेवते पृथिवीनिहागच्छ अङ्गारकग्रहाधिदेवताम् सा अङ्गाम् सायुधाम् सवाहनाम् शक्तिपत्नीपुत्रपरिवारसमेताम् अङ्गारकग्रहस्य दक्षिणतः पृथिवीम् ध्यायामि आवाहयामि ओ स्य वजकुं भजगुम् हितेनैव जयामसि कामश्वम् बोधयित्वा अधुना वृणादीदृशे ओम् गोर्गुवस्सु वः अङ्गारकग्रहप्रत्यधिदेव क्षेत्रपालकजिहागच्छ अङ्गारकग्रहप्रत्यधिदेवता साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् क्षेत्रपालकम् अङ्गारकग्रहस्य उत्तरतः ध्यायामि आवाहयामि अथ बुध आवाहनम् उद्बुद्ध्यस्व नित्यस्य मन्त्रस्य मधुच्छन्दर्षिः तृष्णुच्छन्दः देवता अधिदेवता प्रत्यधिदेवता सहित बुधग्रहावाहने विनियोगः पीताम्बरः पीतवरीटी चतुर्भुजो दण्डधरश्च सौम्यः शर्वातिहृत्सो मसुतः वरदो बुधः स्यात् उद्बुद्ध्यस्वाग्ने प्रतिजागृक्येन विट्टा भूर्ते सगुम् दृशेथा भजम् च पुनः गृह्वर्गस्तापितरं युवानमन्वादागुंसे त्वहितम् तुमेतम् ओङ्कोद्भुवः सुवः बुधग्रहजिहागच्चगच्छ बुधग्रहम् पीतवर्णम् पीतगन्धम् वीतच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेरुम् प्रदक्षिणीगुर्बाणम् सिंहवाहनम् उदङ्मुखम् मगधदेशाधिपतिम् चतुर्भुजम् खड्गचर्माम्बरधरम् आत्रेयगोत्रम् सौम्य शुक्ल सौम्यसंवत्सर वैशाखशुक्ल एकादश्या उत्तरफल्गुणीनक्षत्रे जातम् कन्यामिथुनराश्यधिपतिम् सौम्यवासरप्रयुक्तम् किरीटिनम् सुखासीनम् पत्नीपुत्रपरिवारसमेतम् प्रविष्टं प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य ईशानदिग्भागे बाणाकारमण्डले मुद्गधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् बुधग्रहम् ध्यायामि आवाहयामि ओ इदम् विष्णुर्विचक्रमे त्रेधानि तथे पदम् समूढमस्य पाकुम् सुरे ओम् ओ वस्सु वः बुधग्रहाधिदेव विष्णो जिहागर्च बुधग्रहाधिदेवताम् साङ्गम् सायुधम् सवाघदम् शक्तिपत्नीपुत्रपरिवारसमेतम् बुधग्रहस्य दक्षिणतः विष्णुम् ध्यायामि वाहयामि ओ विष्णोरलमधि विष्णा पृष्टवति विष्णा स्नप्रेस्तो विष्णुस्यो रसि विष्णा ध्रुवमधि वैष्णवमधि विष्णवे ॐ भूर्भुवस्सुवः बुधग्रहप्रत्यतिदेवनारायणयिहागत्य बुधग्रहप्रत्यशिदेवता साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् बुधग्रहस्य उत्तरतः नारायणम् ध्यायामि आवाहयामि अथ बृहस्पति आवाहनम् बृहस्पते अतियदर्य इति मन्त्रस्य गृत्सपदर्षिः जगती छन्दः बृहस्पतिग्रहो देवता अधिदेवता प्रत्यधिदेवता सहित बृहस्पतिग्रहावाहने विनियोगः वराक्षबालिकादण्डकपण्डलुकरम् विभुम् पुष्परागाञ्चितम् पीतम् वरदम् भावयेद्गुरुम् बृहस्पते अधियतर्यो अर्ह आद्युपत् विभाति क्रतुमध्य नेतो यद्दीत यत्तवसर्त प्रजात तस्मात् विनन्देहि चित्रम् ओम् भूर्भुवः सुवः बृहस्पतिग्रहजिहागच्छागच्छ बृहस्पतिग्रहम् कनकवर्णम् कनकगन्धम् कनकपुष्पम् कनकबाल्याम्बरधरम् कनकच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेरुम् प्रदक्षिणीकुर्वाणम् उत्तराभिमुखम् पद्वासनस्तम् चतुर्भुजम् दण्डाक्षमालाधारिणम् सिन्धुद्वीपदेशाधिपतिम् ङ्गीरसगोत्रम् सौम्यसंवत्सरद्वादश्याम् धनिष्टा नक्षत्रे जातम् धनुर्मीनराश्यधिपतिम् गुरुवारप्रयुक्तम् इरीटिनम् सुखासीदं, पत्नीपुत्रपरिवारसमेतम् ग्रहमण्डले प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य उत्तरदिग्भागे दीर्घचतुरश्रमण्डले चणकधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् बृहस्पतिगृहम् त्याजामि ओ इन्द्रमरुद्वजिगपाधितो मयि यथा सार्यते अपि वः तव प्रणीति तव शोरसर्वण्णापि वासन्ति कवयः सु यज्ञाः ओम् भूर्भुवस्सु वः शक्ति इन्द्रमरुत्वजिहागच्छ बृहस्पतिग्रहाधिदेवताम् परिवार सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् बृहस्पतिग्रहस्य दक्षिणतः इन्द्रमरुत्वम् ध्यायामि आवाहयामि ओ ब्रह्मजज्ञानं प्रथमम् पुरस्ताद्विषये मतः सुरुचो वेन आवहा स बुध्लिया उपमा अस्य विट्टा सतश्च ॐ गोर्भुवस्तु वः बृहस्पतिग्रहप्रत्यधिदेव ब्रह्म निहावच्च बृहस्पतिग्रहप्रत्यधिदेवता साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् बृहस्पतिग्रहस्य उत्तरतः ब्रह्माणम् ध्यायामि आवाहयामि अथ शुक्र आवाहनम् प्रवः शुक्राय आवा इत्यस्य मन्त्रस्य भरद्वाज ऋषिः पृष्टुप्छन्दः शुक्रग्रहो देवता अधिदेवताप्रत्यधिदेवतासहितशुक्रग्रहावाहने विनियोगः जटिलाक्षम् च सूत्रम् च वरदण्डकमण्डलम् श्वेतवस्त्रोज्ज्वलम् शुक्रम् शुक्रं नवपूजितम् ॐ प्रभः शुक्राय भान्वे भरद्वगुम् हव्यम् वतिम् चाग्रजे सुपोतम् यो देव्यानि मारुजुगुष्यन्तर्विश्वानि विद्मनादिकादि ओम् भोर्भुवस्तु वः शुक्रग्रह आगच्छ शुक्रग्रहम् श्वेतवर्णम् श्वेतगन्धम् श्वेतपुष्पम् श्वेतमाल्याम्बरधरम् श्वेतच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेरुम् प्रदक्षिणीकुर्वाणम् पूर्वाभिमुखम् पद्मासनस्थम् चतुर्भुजम् दण्डाक्षमालाजटावल्कलधारिणम् काम्भोजदेशाधिपतिम् भार्गवगोत्रम् मन्मथसंवत्सरदशम्याम् पुष्यनक्षत्रे जातम् तुलावृषभदास्यधिपतिम् भृगुवासरप्रयुक्तम् किरीटिनम् सुखासीनम् पत्नीपुत्रपरिवारसमेतम् गृहमण्डले प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य पूर्वदिग्भागे पञ्चकोणागारमण्डले राजमाडधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् शुक्रग्रहम् ध्यायामि आवाहयामि ओ इन्द्राणीभासुनारिणसुपत्रीमहमश्रवम् न क्यस्याः परञ्जनजर सामरते पतिः ओम् भूर्भुवस्सु वः शुक्रग्रहाधिदेवते इन्द्राणीह आगच्छ शुक्रग्रहाधिदेवताम् सा अङ्गाम् सायुधाम् सवाहनाम् शक्तिपत्नीपुत्रपरिवारसमेताम् शुक्रग्रहस्य दक्षिणतः इन्द्राणीम् ध्यायामि ॐ इन्द्रम् वो विश्वदस्परिहवामहे जने एभ्यः अस्माकमस्तु केवलः ओम् गोर्धुवस्सु वः शुक्रग्रहप्रत्यधिदेव इन्द्र इहागच्छ शुक्रग्रहप्रत्यधिदेवताम् सायुधं साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् शुक्रग्रहस्य पुत्ररतः इन्द्रम् ध्यायामि आवाहयामि अथ शनैश्चर आवाहनम् षण्डो देवीरिति शनैश्चर मन्त्रस्य सिन्धुद्वीपर्षिः गायत्रीछन्दः शनैश्चरो देवता अधिदेवताप्रत्यधिदेवतासहितशनैश्चरग्रहावाहने विनियोगः चतुर्भुजो बाणचापखड्गहस्तो वरप्रदः गृध्रवाहगतो नित्यं शङ्करोतु शनैश्चरः ण्डो देवी रविष्टज आपो भवन्तु पीतजे श्रयोरभिश्रवन्तु नः ॐ भूर्भुवस्तु वः शनैश्वर ग्रहैहागच्च आगच्छ शनैश्वर ग्रहम् नीलवर्णम् नीलगन्धम् नीलपुष्पम् नीलबाल्याम्बरधरम् नीलच्छत्रध्वज रथपताकादिशोभितम् दिव्यरथसवारूढम् मेरुम् प्रदक्षिणीगुरुर्वाडम् चापासनस्तम् प्रत्यङ्मुखम् गृध्ररथम् चतुर्भुजं। शूलायुधरम् सौराष्ट्रदेशाधिपतिम् विकारिसंवत्सरणम्याम् रोहिणीनक्षत्रे जातम् मकरकुम्भराश्यधिपतिम् मन्दवासरप्रयुक्तम् किरीटिनम् सुखासीनम् पत्नीपुत्रपरिवारसमेतम् गृहमण्डले प्रविष्टम् अस्मिन्नधिकरणे सूर्यग्रहस्य पश्चिमदिग्भागे धनुरागारमण्डले तिलधान्यस्योपरि अस्याम् प्रतिमाया भगवन्तं शनैश्चरग्रहम् ध्याजामि ॐ इमयमप्रस्तरभागसीदाङ्गिराभिपि पितृभिः संविधानः आत्पा मन्त्र आकविशस्त्वावहन् वेदाराजन् हविदादय स्वाहा ॐ भोद्भुवस्वः शनैश्चरग्रहाधिदेवयमैः आगच्छ शनैश्चरग्रहाधिदेवता साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् शनैश्चरग्रहस्य दक्षिणतः यमम् ध्यायामि आवाहयामि ओ पते न त्वदेतान्यो विश्वा जाता निपरिता बभूव यत्कामास्ते जुगुमस्तङ्गाहस्त्वभजग्रस्यामपदजोरजीना ओम् भोर्भुवस्सु वः शनैश्चरग्रहप्रत्यदिदेव प्रजापते जिहागच्छ शनैश्चरग्रहप्रत्यधिदेवताम् साङ्गम् सायुधम् शक्तिपत्नीपुत्रपरिवारसमेतम् शनैश्चरग्रहस्य उत्तरतः प्रजापतिम् ध्यायामि आहयामि अथ राहु आवाहतम् कयानश्चित्रजित्यस्य मन्त्रस्य वामदेवर्णिः गायत्रीछन्दः राहुग्रहो देवता अधिदेवता प्रत्यधिदेवता सहित राहुग्रहवाहने विनियोगः कराळवदनम् खड्गचर्मशूलवरान्वितम् नीलसिंहासनम् राहुम् ध्याये द्रोग प्रशान्तये ॐ ित्राते सदा वृतः सखा कजात चित्तया वृथा ॐ भूर्भुवस्सु वः राहुग्रह इागच्च आगच्छ राहुग्रहम् नीलवर्णम् नीलगन्धम् नीलपुष्पम् नीलबाल्याम्बरधरम् नीलच्छत्रध्वजरथ पताकादिशोभितम् मेरुम् प्रदक्षिणीगुर्वाडम् सिंहासनम् दक्षिणाभिमुखम् शूर्पासनस्थम् चतुर्भुजम् कराळवक्त्रम् खड्गचर्मकरम् पैथीनसगोत्रम् बर्बरदेशाधिपतिम् दिलीटिलम् सुखासीनम् शक्तिपत्नीपुत्रपरिवारसमेतम् ग्रहमण्डले प्रविष्टम् सूर्यमण्डलस्य नैरृतिदिग्भागे शूर्पाकारमण्डले माषधान्यस्योपरि अस्याम् प्रतिमायाम् भगवन्तम् राहुगृहम् त्याजामि ओ क्रमेतसनम् मातरम् पुनः पितरम् च प्रजन् स्वः ओर्भुवस्वः राहुग्रहादिदेवते दुर्गे इहागच्छ राहुगृहादिदेवताम् सा अङ्गाम् सायुधाम् सवाहनाम् सा शक्तिपत्नीपुत्रपरिवारसमेताम् राहुग्रहस्य दक्षिणतः दुर्गाम् ध्याजामि ओ नमो अस्तु सर्वेभ्यो जे के च पृथिवीमनो ये अन्तरिक्षे जे दिवितेभ्यः सर्पेभ्यो नमः ओम् बोर्भुवस्सुवः राहुग्रहप्रत्यभिदेव सर्पराजिहागच्छ राहुग्रहप्रत्यभिदेवताम् साङ्गम् सायुधम् सवाहनम् शक्तिपत्नीपुत्रपरिवारसमेतम् राहुग्रहस्य उत्तरतः सर्पराजम् ध्यायामि आवाहयामि अथ वाहनम् केतुम् कण्वन्नित्यस्य मन्त्रस्य मधुच्छन्दर्शिः गायत्री छन्दः केतुगणो देवता अधिदेवता प्रत्यधिदेवता सहित केतुगणावाहने विनियोगः धूम्रवन्द्रम् द्विबाहुम् च केतुम् च विकृताननम् ग्रध्रासनगतम् नित्यम् ध्यायेत् सर्वफलाप्तये वो केतुम् कृण्वन्न केतवे पेषो मतिजाः पेषसे समुषभिरजायताः वोम् भूर्भुवस्सु वः केतुगणजिहागच्च ग केतुगणम् चित्रवर्णम् चित्रगन्धम् चित्रपुष्पम् चित्रमाल्याम्बरधरम् चित्रच्छत्रध्वजरथपताकादिशोभितम् दिव्यरथसमारूढम् मेरुम् प्रदक्षिणीकुर्वाणम् ध्वजासनस्थम् दक्षिणाभिमुखम् चतुर्भुजम् अन्तर्वेदिदेशाधिपतिम् दिबाहुम् गदाधरं, जैमिनिगोत्रम् अभिजिन्नक्षत्रे जातं, सिंहासनासीनम् ग्रहमण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्यग्रहस्य वायव्यदिग्भागे ध्वजागारमण्डले कुळुत्सधान्यस्योपरि अस्याम् रतिमाजा भगवन्तम् केतुगणम् द्यायामि आवाहजामि ओ सचित्र चित्रम् चिदजन्तमस्मे चित्रक्षत्रश्चित्रतमम् चित्र चित्र चित्र चित्र चित्र वयोधा चन्द्रम् रयिम् पुरुवीरम् मृगन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व ॐ भोर्भुवस्सु वः केतुगणाधिदेव चित्रगुप्तयिगा गच्छ केतुगणाधिदेवता साङ्गम् सायुधम् सवाहतम् शक्तिपत्नीपुत्रपरिवार समेतम् केतुगणस्य दक्षिणतः चित्रगुप्तम् ध्यायामि आवाहयामि ओ ्रह्मा देवानाम् पदवी कवीना ऋषिर्विप्राणाम् महिषो मृगाना श्ये नो गृध्रा नागस्मतिर्वनानागुंसोमः पवित्रमध्येतिरेफल्ने ॐ भोर्भुवस्सु वः केतुगणप्रत्यधिदेव ब्रह्म निहागच्छ केतुगणप्रत्यधिदेवताम् साङ्गम् सायुधम् सवाहतम् शक्तिपत्नी पुत्रपरिवारसमेतम् केतुगणस्य उत्तरतः ब्रह्माणम् ध्याजामि आदित्यादिनवग्रहदेवताभ्यो नमः अर्घ्यम् समर्पयामि वाद्यम् समर्पयामि आचमनीलम् समर्पयामि स्नानम् समर्पयामि वस्त्रम् समर्पयामि आभरणानि समर्पयामि गन्धान्धारयामि पुष्पाणि समर्पयामि पुष्पैः पूजयामि ओ आदित्याय नमः ंगारकाय नम बुधा नम वो बृहस्पत नम ुक्रा नम ईनश्चराय नम ओ नम ुभ्यो नम इत्यादि नवग्रहदेवताभ्यो नमः धूममाग्रापयामि दीपम् दर्शयामि नैवेद्यम् निवेदयामि महत्पूरणीराजनम् दर्शयामि मन्त्रपुष्पम् समर्पयामि आदिय सोमायंगा बुधा चुनशुक्रशनीभ्येतवे नम